अयुध्यमानमात्मानम् मन्त्रिणम् पुरुषर्षभौ अक्षौहिणीं वा सैन्यस्य कस्य किं वा ददाम्यहम् वव्रे दुर्योधनः सैन्यम् मन्दात्मा यत्र दुर्मतिः वव्रे कृष्णं धनञ्जयः मद्रराजञ्च राजानमायान्तम् पाण्डवान् प्रति उपहारैर्वञ्चयित्वा वर्त्मन्येव सुयोधनः वरदन्तं वरं वव्रे साहाय्यं क्रियतां मम शल्यस्तस्मै प्रतिश्रुत्य जगामोद्दिश्य पाण्डवान् शान्तिपूर्वं चाकथयद् यत्रेन्द्रविजयं नृपः पुरोहितप्रेषणं च पाण्डवैः कौरवान्प्रति वैचित्रवीर्यस्य वचः समादाय पुरोधसः तथेन्द्रविजयं चापि यानं चैव पुरोधसः संजयं प्रेषयामास शमार्थी पाण्डवान्प्रति यत्र दूतम् महाराजो धृतराष्ट्रः प्रतापवान् श्रुत्वा च पाण्डवान् यत्र वासुदेवपुरोगमान् प्रजागरः सम्प्रजज्ञे धृतराष्ट्रस्य चिन्तया विदुरो विदुर्य्याण हितायास राज्रमीषिण तथा सनत्सुजातेन यध्यात्म मनस्तान्वो राजोकलालस प्रभाते राजसमितौ संजयो यत्र वा विभो ऐकात्म्यम् वासुदेवस्य प्रोक्तवानर्जुनस्य च यत्र कृष्णोदयापन्नः सन्धिमिच्छन् महामतिः स्वयमागाच्छमम् कर्तुम् नगरं नागसाह्वयम् प्रख्यान कृष्ण से वै शे याचमान सेभंभद्भव से चाख्यानम परकीर्ति ववेशमे महात्म महर्षेश्चापि चरितम् कथितम् गालवस्य वै विदुलायाश्च पुत्रस्य प्रोक्तम् चाप्यनुशासनम् कर्णदुर्योधनादीनाम् दुष्टम् विज्ञायमन्त्रितम् योगेश्वरत्वम् कृष्णेन यत्र राज्ञाम् प्रदर्शितम् रथमारोप्य कृष्णेन यत्र कर्णोऽनुमन्त्रितः उपायपूर्वम् शौटीर्यात् प्रत्याख्यातश्च तेन सह हा। आगम्यहास्ति न पुरादुपप्लव्यमरिन्दमः पाण्डवानाम् यथावृत्तम् ते तस्य वचनम् श्रुत्वा मन्त्रयित्वा च यद्धितम् साङ्ग्रामिकम् ततः सर्वम् सज्जम् चक्रुः परन्तपाः ततो युद्धाय निर्याता नराश्व रथदन्तिनः नगराद्धास्ति न च